अथ कृष्णयजुर्वेदे क्रमपाठे प्रथमकाण्डे तृतीयप्रश्नप्रारम्भः ओ देवस्य त्वा सवितुः सवितुः प्रसवे प्रसवेश्विनोः प्रसव इति प्रासवे अश्विनोर्बाहुभ्याम् बाहुभ्याम् ओष्णः बाहु ष्णाहस्ताभ्याम् हस्ताभ्यामा आभ्याम, हस्ता आददे ददेभ्रिः अभ्रिरसि असि नारिः नारिरसि असि परिलिखितम् परिलिखितगुं रक्षः परिलिखितमिति परिलिखितम् रक्षः परिलिखिताः परिलिखिता अरातयः परिलिखिता इति परिलिखिताः अरातय इदम् इदमहम् अहगुं रक्षसो ग्रीवाः ग्रीवा अपि अपि कृन्तामि कृन्तामि यः योऽस्मान् अस्मान्वेष्टि द्वेष्टियम् यम् च वयम् वयम् द्विष्मः ग्रीष्म इदम् इदमस्य अस्य ग्रीवाः ग्रीवा अपि अभिकृन्तामि दिवे दिवे त्वा त्वान्तरिक्षाय अन्तरिक्षाय त्वापृथिव्यै पृथिव्यै त्वा त्वाशुन्धताम् शुन्धताम् लोकः लोकः पितृषदनः पितृषदनो पितृषदनैति पितृसदनः यवोऽसि असि यवय यवयास्मद् अस्मद्वेषः द्वेषो यवय यवया राजीः अरातीपितृणाम् पितृणादुम् सदनम् सदनमसि अस्युत् उद्दिवम् तिरोग्गस्तभा स्तभाना आन्तरिक्षम् अन्तरिक्षम् प्रण वृणपृथिवीम् पृथिवीम् नृगम्ह दृगम्हद्युतानः द्युतानस्त्वा त्वा मारुतः मारुतो मिनोतो विनोतु मित्रावर्णयोः मित्रावर्णयोरुध्रुवेण मित्रावर्णयोरिति मित्रावरुणयोः ध्रुवेण धर्मणा धर्मणा ब्रह्मवणिम् ब्रह्मवलिम् त्वा ब्रह्मवनिमिति ब्रह्मावनिम् त्वा क्षत्रवनिम् सुप्रजावनिम् क्षत्रवनिमिति क्षत्रावनिम् सुप्रजावनिगुम् रायस्पोषवलिम् सुप्रजावनिमिति परि रायस्पोशवनिमिति रायस्पोषावनिम् पर्योहामि वोहामि ब्रह्म ब्रह्मदृगम्ह दृग्ह प्रजाम् प्रजाम् दृग्म्ह प्रजामिति प्राजाम् दृग्ह राजः राजस्पोषम् पोषम् दृग्म्ह दृगम्हघृतेन घृतेन द्यावापृथिवी द्यावापृथिवी आ द्यावापृथिवी इति द्यावापृथिवी आप्रमेधाम् प्रमेधामिन्द्रस्य इन्द्रस्य सदः सदोऽसि असि विश्वजनस्य विश्वजनस्य छाया विश्वजनस्येति विश्वजनस्य छायापरि परि त्वा त्वा गिर्वणः इमा भवन्तो भवन्तु विश्वतः विश्वतो वृद्धायुम् वृद्धायुमनो वृद्धायुमिति वृद्धा आयुम् भवन्तो भवन्तु जुष्टयः इन्द्रस्य इन्द्रस्य स्योः असीन्द्रस्य इन्द्रस्य ध्रुवम् ध्रुवसि अस्यैन्द्रम् ऐन्द्रमसि असीन्द्राय इन्द्रायत्वा त्वे दित्वा रक्षोहणो वलगहनः रक्षोहण इति रक्षहाहनः वलगहनो वैष्णवान् वलगहन इति वलगाहनः वैष्णवान् खनामि खनामीदम् खनामी इदमहम् अहम् तम् तं, तम् बलगमिति बलगम् उद्वपामि पपामियम् एम्नः मस्समानः समानोऽयम् यमसमानः असमानो निचखान निचखानेदम् निचखानेतिनिचखान इदमेनम् इदमेनं। अधरम् करोमि करोमि यः यो नः मस्समानः समानो यः असमानो राधीयति राधीयति गायत्रेण गायत्रेण छन्दसा छन्दसावबाढः अवबाढोऽवलगः अवबाढ इत्यवबाढः वलगः किम् किमत्र अत्र भद्रम् भद्रम् तन्नौ नौ सः विराडसि विराडिति वीराट् सपत्नः सपत्नः सपत्नहेति सपत्नाः सम्राडसि सम्राडिति सम्राड् असि भ्रातृव्यः भ्रातृव्यः स्वराड् भ्रातृव्यहेति भ्रातृव्याः स्वराडसि स्वराडिति स्वारुड् अस्यभिमातिहा अभिमातिहा विश्वाराड् अभिमातिहेत्यभिमातिहा विश्वाराडसि विश्वाराडिति विश्वारुहाड् विश्वासान्नाष्ट्राणाम् नाष्ट्राणागुम्हन्ता हन्ता रक्षोहणः रक्षोहणो बलगहनः रक्षोहण इति रक्षहाहनः वलगहनः प्रा वलगहन इति प्रोक्षामि वक्षामि वैष्णवान् वैष्णवान् रक्षोहणः रक्षोहणो वलगहनः रक्षोहण इति अवनयामि नयामि वैष्णवान् वैष्णवान् यव यवोऽसि असि यवय यवयास्मद् अस्मद्वेषः द्वेषो यवय यवया रातीः अरातीरक्षोहणः रक्षोहणो बलगहनः रक्षोहण इति रक्षः हनः बलगहनो वा बलगहन इति बलगहनः अवस्तृणामि स्तृणामि वैष्णवान् रक्षोहणो वलगहनः हा। रक्षोहण इति रक्षहाहनः हा। वलगहनोऽभि वलगहन इति वलगाहनः अभिजुहोमि जुहोमि वैष्णवान् वैष्णवान् रक्षोहणौ रक्षोहणौ वलगहनौ रक्षोहणामिति रक्षहा हनौ वलगहनावुप वलगहनामिति वलगाहनौ उप दधामि वैष्णवी वैष्णवी रक्षोहणौ वैष्णवी इति वैष्णवी रक्षोहणौ वलगहनौ रक्षोहणामिति रक्षहा वलगहनोपरि वलगहनामिति वलगाहनौ पर्योहामि वूहामि वैष्णवी वैष्णवी रक्षोहणौ वैष्णवी इति वैष्णवी रक्षोहणौ वलगहनौ रक्षोहणाविति रक्षहाहनौ वलगहनौ परि वलगहनाविति वलगहनौ परिसृणामि स्तृणामि वैष्णवी वैष्णवी रक्षोहणौ वैष्णवी इति वैष्णवी रक्षोहणौ वलगहनोः रक्षोहणाविति रक्षहाहनोः वलगहनौ वैष्णवी वलगहनाविति वलगाहनोः वैष्णवी बृहन् वैष्णवी इति वैष्णवी बृहन्नसि असि बृहद्ग्रावा बृहद्ग्रावा बृहतीम् बृहद्ग्रावेति बृहद् ग्रावा इन्द्राय वाचम् वाचम् वद वदेति वद विभोरसि विभोरिति विभूः असि प्रवाहणः प्रवाहणो वह्निः प्रवाहण इति प्रावाहनः वह्निरसि असि हव्यवाहनः हव्यवाहनश्वात्रः हव्यवाहन इति हव्यावाहनः स्वात्रोऽसि असि प्रचेताः प्रचेतास्तुथः प्रचेता इति प्राचेताः तुथोऽसि असि विश्ववेदाः विश्ववेदा इति विश्वावेदाः उशिरसि असि कविः कविरङ्घारिः अङ्घारिरसि असि वम्भारिः वम्भारिरवस्युः अवस्युरसि असि दुवस्वान् दुवस्वान्शुन्ध्योः शुन्ध्योरसि असि मार्जालीयः मार्जालीयः सम्राट् सम्राटसि सम्राट् इति अनुः परिषद्योऽसि परिषद्य परि सद्यः असि पवमानः पवमानः पृतक्वा पृतक्वासि पृथक्वेति प्रातक्वा असि नभःस्वान् नभःस्वानसंमृष्टः असंमृष्टोऽसि असंमृष्ट असि हव्यसूदः हव्यसूदऋतधामा हव्यसूद इति हव्यासूदः ऋतधामासि असि सुवर्ज्योतिः सुवर्ज्योतिर्ब्रह्मज्योतिः सुवर्ज्योतिरिति सुवः ज्योतिः ब्रह्मज्योतिरसि ब्रह्मज्योतिरिति ब्रह्म असि सुवर्धामा सुवर्धामाजः सुवर्धामेति सुवः धामा अजोऽसि अस्येकपात् एकपादहिः एकपादित्येकापात् अहिरसि असि बुद्धन्यः बुद्ध्यो रौद्रेण रौद्रेणानीकेन अनीकेन पाहि पाहि माग्नेः अग्ने पिप्रहि पिप्रहि माहिंसीः मा, हिपुंसीरिति हिगुंसीःसोम सोम सो तनोकृद्भ्यः तनोकृद्भ्यो द्वेषोभ्यः तनोकृद्भ्य इति तनोकृतेभ्यः द्वेषोभ्योऽन्यकृतेभ्यः द्वेषोभ्य इति द्वेषःभ्यः अन्यकृतेभ्य उरु अनन्यकृतेभ्य इत्यन्या कृतेभ्यः रु यन्ता यन्तासि असि वरोथम् वरोथग्स्वाहाषाणः विषाणो अप्तुः अप्तुराज्यस्य आद्यस्य वेतो वेतुस्वाहा साहायम् अयम् नः नो अग्निः अग्निर्वरिवः वरिवः कृणोतु कृणोत् द्वयम् अयम् ेतु प्रभिन्दन् प्रभिन्दन् इति प्राभिन्दन् अयगुम् शत्रून् शत्रोञ्जयतु शत्रोन जयतु जर्घृषाणः जर्घृषाणोऽयम् अयम् वाजम् वाजुञ्जयतु जयतु वाजसातौ वाजसाताविति वाजसातौ उरुविष्णो विष्णो विष्णो, विष्णो इति विष्णो विक्रमस्व क्रमस्वोरु उरुक्षयाय क्षयायणः नः कृधि कृधि इति कृधि घृतम् घृतयोने घृतयोने पिबृतयोन इति घृतायोने पिबप्रयज्ञपतिम् प्रप्रेतिप्राप्र यज्ञपतिम् तिरा यज्ञपतिमिति यज्ञापतिम् तिरेति तिरा सोमो जिगाति जिगाति गातुवित् गातुविद्देवानाम् गातुविदिति गातुवित् देवानामेति एति निष्कृतम् निष्कृतमृतस्य निष्कृतमिति निः कृतम् कृतस्य योनिम् योनिमासदम् आसदमदित्याः आसदमित्या आसदम् अदित्यासदः सदोऽसि अस्यदित्याः अदित्यासदः सदा आसीद सीदैषः एषवः वो देव देवसवितः सवितः सोमः सोमस्तम् तनु रक्षध्वम् को दभत् दभदेतत् एतत् सोम सोमदेवः देवो देवान् देवानुप उपागाः अगा इदम् अहम् मनुष्यः मनुष्यो मनुष्यान् मनुष्यान् सः सः प्रजया प्रजया सह प्रजयेदि प्राजया सह राजः रायस्पोषेण कोषेण नमः नमो देवेभ्यः देवेभ्यः स्वधा सुधा पितृभ्यः सुधेति स्वाधा पितृभ्य इदम् पितृभ्य इति पितृभ्यः इदमहम् अहन्निः निर्वरुणस्य वरुणस्य पाशात् पाशात्सुवः सुवरभि अभिवि विख्येषम् ख्येषम् वैश्वानरम् वैश्वानरम् ज्योतिः ज्योतिरग्नेः अग्ने व्रतपते प्रतपते त्वम् प्रतपत म् व्रतानाम् व्रतानाम् व्रतपतिः व्रतपतिरसि व्रतपतिरितिव्रतापतिः असि या मम मम तनोः तनोस्त्वयि त्वय्यभूत् अभूदियम् इयम् सा सा मयि मयिया अभोदेशा एषा सा यथायथम् यथा यथम् नौ यथायथमिति यथा यथम् नौ व्रतपते व्रतपते व्रतिनोः व्रतपत इति व्रतापते व्रतिनो अर्व्रतानि व्रतानीति व्रतानि अत्यन्यान् अन्यानगाम् अघान्न नान्यान् अन्यानुप उपागाम् अगामर्वाक् अर्वाक्त्वा त्वापरैः परैरविदम् अविदम् परः अरोवरैः अवरैस्तम् तन्त्वाजुषे जुषे वैष्णवम् वैष्णवम् देवयज्ञायै देवयज्ञायै देवः देवयज्ञाया इति देवयजायै देवस्त्वा त्वा सविता सविता मध्वा मध्वा नक्तो त्रायस्वैनम् येनग्रस्वधिते स्वधिते मा स्वधित इति स्वाधिते नैनम् एनघुं हिपुंसीः हिपुंसीर्दिवम् दिवमग्रेण अग्रेण वा मालेखीः लेखीरन्तरिक्षम् अन्तरिक्षम् मध्येन मध्येन वा मा हिगुंसीः हिपुंसेः पृथिव्या पृथिव्यासम् समम्भव भव वनस्पते वनस्पते शतवलशो वि शतवलष विरोह रोहसहस्रवलषाः सहस्रवलषा वि सहस्रवलषा इति सहस्रावलुषाः विभयम् वयगम् रुहेम गृहेमयम्बा त्वायम् अयज्ञस्वधितिः स्वधितिस्तेति गानः स्वधितिरिति स्वाधितिः तेति प्रणिनाय महते प्रणिनायेति प्रणिनाया महते सौभगाय सौभगायच्छिन्नः अच्छिन्नो रायः रायः सुवीरः सुवीर इति सोवीरः पृथिव्ययीत्वा त्वान्तरिक्षाय अन्तरिक्षाय त्वा त्वा दिवे द्वे लोकः लोकः पितृषदनः पितृशदनो यवः पितृशदन इति पितृसदनः असि यवय यवयास्मत् अस्मद्वेषः देशो यवय यवयाराजीः अराजीः पितृणाम् पितृणाम् सदनम् सदनमसि असि स्वावेशः स्वावेशोऽसि स्वावेश इति सु आवेशः अस्यग्रेगाः अग्रेगा वनस्पतिः अधित्वा स्थास्यति स्थास्यति तस्य वित्तात् वित्ताद्देवः देवस्त्वा सविता सविता मध्वा मध्वा नक्तो अनक्तु सुविप्पलाभ्यः सुविप्पलाभ्यस्त्वा सुविप्पलाभ्यैति सो पिप्पलाभ्यः ओषधीभ्यः ओषधीभ्यमुत् स्तभाना आन्तरिक्षम् अन्तरिक्षम् ऋण ऋणपृथिवीम् पृथिवीमुपरेण उपरेण दृगृम्ह दृगुम्हते ते ते ते उष्मसि गमध्ये गमध्ये गावः गावो यत्र यत्र भूरिशृङ्गाः अयासः भूरिशृङ्गा इति भूरि शृङ्गाः अयास इत्ययासः रुगायस्य विष्णोः रुगायस्येत्युरोगायस्य विष्णोः परमम् परमम् पदम् पदमव अवभाति अब भाति भूरेः भूरेरिति भूरेः विष्णोः कर्माणि पश्यत पश्यत यतो वव्रतानि व्रतानि पस्पृशे पस्पृश इति इन्द्रस्य युज्यः युज्यः सखेति सखाः तद्विष्णाः विष्णाः परमम् परमम् पदम् पदगुम् सदा सदा पश्यन्ति पश्यन्ति सूरयः सूरय इति सूरयः विरीव इव चक्षुः चक्षुराततम् आततमित्यातम् ब्रह्मवलिम् त्वा ब्रह्मवलिमिति ब्रह्मवलिम् क्षत्रवलिमिति क्षत्रावनिम् सुप्रजावनिगम् राजस्पोशवनिम् सुप्रजावनिमिति सुप्रजावनिम् राजस्पोशवनिम् परि राजस्पोशवनिमिति राजस्पोशावनिम् पर्यूहामि वूहामिब्रह्म ब्रह्म दृगम्ह दृगम्ह क्षत्रम् क्षत्रम् दृगम्ह दृगम्हप्रजाम् प्रजाम् दृगम्ह प्रजामिति प्राजाम् दृगम्ह पोषम् लबम्ह दबृम्म परिवीः परिवीरसि परिवीरिति परिवीः असि परि परि त्वा त्वा त्वा त्वा त्वा त्वा दैवीः दैवीर्विषः विशो पोषो यजमानम् यजमानम् मनुष्याः मनुष्या अन्तरिक्षस्य अन्तरिक्षस्य त्वा अवगूहामि गुहामीति गुहामि इषे त्वा उपवीरसि उपवीरित्युगावीः अस्युपो उपो देवान् उपो इत्युपो देवान् दैवीः दैवीर्विषः विषः प्रा, प्रागुः अगुर्वह्नीः ऋषिजो बृहस्पते बृहस्पते धारय धारया, धारया वसूनि वसूनि हव्या हव्या ते वसु, ते स्वदन्ताम् देव रेव त्वष्टः त्वष्टर्वसु वसुरण्वा रण्वतीः रेवतीरमध्वम् रमध्वमग्नेः अग्नेर्जनित्रम् जनित्रमसि असि वृषणौ वृषणौ स्थः स आयुरसि असि पुरूरवाः घृते नाक्ते अक्ते वृषणम् अक्ते इत्यक्ते वृषणम् दधाथा दधाथा गायत्रम् छन्दः छन्दोनो अनुप्रजायस्व जायस्वत्रैष्टुभम् त्रैष्टुभम् जागतम् जागतम् छन्दः छन्दो नो अनुप्रजायस्व जायस्व भवदन्नः नः समनसौ समनसौ समोकसौ समनसावितिसावनसौ समोकसावरेपसौ समोकसाविति सम् मा यज्ञम् यज्ञकम् हिगम् सृष्टम् हिगम् मा मा यज्ञपतिम् यज्ञपतिम् जातवेदसौ यज्ञपतिमिति जातवेदसौ शिवौ जातवेदसाविधिजाता वेदसौ शिवौ भवतम् भवतमद्य अद्यनः नैरिनः अग्नावग्निः अग्निश्चरति चरति प्रविष्टऋषीणाम् प्रविष्ट इति पुत्रः पुत्रो अधिराजः अधिराज एषः अधिराज इत्यधिराजः आहा कृत्येति स्वाहा कृत्य ब्रह्मणा ते ते जुहोमि जुहोमि मा देवानाम् देवानाम् विधुया विधुया कः कर्भागधेयम् भागधेयमिति भागधेयम् आददे तदऋतस्य ऋतस्य त्वा देवह देवहविः देवहविः पाशेन देवहविरिति देवाहविः पाशेन आरभे रभे धर्ष धर्षा मानुषान् मानुषानद्भ्यः अभ्यस्त्वा अभ्यैत्यतेभ्यः ओषधीभ्यः ओषधीभ्यः प्रा ओषधीभ्यैत्यौषधीभ्यः प्रोक्षामि उक्षाम्यपाम् अपाम् प्रेरुहो प्रेरुरसि असि स्वात्तम् स्वात्तञ्चित् चेत्सदेवम् सदेवगम् हव्यम् सदेवमिति सा हव्यमापः पापो देवी, देवी स्वदता स्वदतैनम् तेन पुंसम् सन्देः प्राणः प्राणो वायुना प्राण इति वायुना गच्छता पुंसम् संयजत्रैः यजत्रैरङ्गानि अङ्गानि सम् संयज्ञपतिः यज्ञपतिराशिषा यज्ञपतिरिति आशिषेत्याशिषा कृतेनाक्तौ अक्तौ पशुम् पशुम् रायेथाम् रायेथाकुम् रेवतीः रेवतीर्यज्ञपतिम् यज्ञपतिम् प्रियथा यज्ञपतिमिति यज्ञापतिम् प्रियथाविशत प्रियथेति प्रियाथा विशतोरो उरो अन्तरिक्ष उरो इत्युरो अन्तरिक्षसजोः सजोर्देवेन सजोरिति साजोः देवेन वातेन वाते नास्य अस्य हविषः हविषस्त्मना स्मना यज समस्य अस्य तनुवा तनुवा भववर्षीयः वर्षीयोवर्षीयसि वर्षीयसि यज्ञे यज्ञे यज्ञपतिम् यज्ञपतिन्धाः यज्ञपतिमिति यज्ञापतिम् धाः पृथिव्याः पृथिव्याः सम्प्रजः सम्प्रजः पाहि सम्पृज इति सम्पृजः पाहि नमः नमस्ते तातान आतानानर्वा आतानेत्यातान प्रेहि इह घृतस्य घृतस्य कुल्याम् कुल्यामनु अनुसः सह प्रजया प्रजया सह प्रजयेति प्राजया सह राजः राजस्पोषेण पोषेणापः आपो देवीः देवीः शुद्धा युवः शुद्धायुवः शुद्धाः शुद्धायुव इति शुद्धा देवान् देवागुम् ऊढ्वम् ऊढ्वम् शुद्धाः शुद्धा वयम् परिविष्टाः परिविष्टाः परिवेष्टारः परिविष्टा इति परिविष्टाः परिवेष्टारो परिवेष्टार इति परिवेष्टारः वो भूयास्म भूयास्मेति भूयास्म वाक्ते त आ आप्यायताम् यायताम् प्राणः प्राणस्ते प्राण इति प्रा अनः त आप्यायताम् यायताम् चक्षुः चक्षुस्ते त आप्यायताम् जायताविश्रोत्रम् श्रोत्रम् आप्यायताम् जायताञ्वा गाते ते प्राणान् प्राणान्शुर् प्राणान्यप्र अनान् शुर्जगाम जगामया या चक्षुः चक्षुर्या या यत्ते ते, ते क्रूरम् क्रूरञ्जत् यदास्थितम् आस्थितम् तत् आस्थितमित्यास्थितम् तत्ते ता आप्यायताम् प्यायताम् तत् तत्ते तदेतेन एतेन शृन्धताम् शृन्धताम् नाभिः नाभिस्ते त आ आप्यायताम् प्यायताम् पायुः पायुस्ते त आप्यायताम् पायताम् शुद्धाः शुद्धाश्चरित्राः चरित्रा श्रम् शमद्भ्यः अभ्यश्रम् शमोषधीभ्यः ओषधीभ्यः शम् ओषधेभ्य इत्योषधीभ्यः शम्पृथिव्यै पृथिव्यै शम् शमहोभ्याम् अहोभ्यामोषधे अहोभ्यामित्यहहाभ्याम् ओषधे त्रायस्व त्रायस्वैनम् येन गः स्वधिते स्वधिते मा स्वधित इति स्वाधिते रक्षसाम् भागः भागोऽसि असीदम् इदमहम् अहम् रक्षः रक्षोधमम् अधमन्तमः तमो नयामि नयामि यः योऽस्मान् अस्मान् द्वेष्टि च वयम् वयम् द्विष्मः द्विष्म इदम् इदमेनम् एनमधमम् अधमन्तमः अधमन तमो नयामि नयामीशे ईषे हृदयेन द्यावापृथिवी द्यावापृथिवी प्र द्यावापृथिवी इति द्यावापृथिवी प्रो ऽण्वाथाम् ओण्वाथामच्छिन्नः अच्छिन्नो रायः रायः सुवीरः सुवीर इति सो वीरः उर्वान्तरिक्षम् अन्तरिक्षमनु अन्विहि हि वायोः वायो वि वायो इति वायोः वीहि स्तोकाना स्तोकानागस्वाहा स्वाहोर्ध्वनभसम् ऊर्ध्वनभसम् मारुतम् ऊर्ध्वनभसमित्योर्ध्वनभसम् मारुतम् गच्छतम् गच्छतमिति गच्छतम् सम् ते ते मनसा मनसा मनः मनःसम् सम् प्राणेन प्राणः प्राणेनेति प्रा अनेन प्राणोयुष्टम् प्राण दुष्टम् देवेभ्यः देवेभ्यो हव्यम् हव्यम् घृतवत् घृतवत्सा घृतवदिति घृतावत् सा ऐन्द्रः प्राणः प्राणोऽङ्गे अङ्गे प्राण इति प्रा अङ्गे अङ्गेनि अङ्गे अङ्ग अङ्गे निरेध्यत् रेद्यदैन्द्रः ऐन्द्रोपानः अपानो अङ्गे अङ्गे अपान इत्यपा अङ्गे अङ्गे वि अङ्गे अङ्ग इत्यङ्गे अङ्गे वि वो भुवत् वो भुवद्देव देवत्वष्टः त्वष्टर्भूरि भूरि ते ते सगुंसम् सगुंसमेतो सगुंसमिति संसम् एतत् विशुरूपाः विशुरूपा यत् विशुरूपा सलक्ष्माणो भवथ सलक्ष्माण इति भवथ देवत्रा देवत्रायन्तम् देवत्रेति देवात्रा यन्तमवसे अवसे सखायः सखायो न अनुत्वा त्वा माता मातापितरः पितरो मदन्तो मदन्त श्रीः श्रीरसि अस्यग्निः अग्निस्त्वा त्वा श्रीणातु श्रीणात्वापः आपःसम् वातस्य त्वा त्वाद्ध्रज्यै ध्रज्यै वोष्णः ओष्णोरग्रह्यै रगह्या अपाम् अपामोषधीनाम् ओषधीनाङ्गम् रोहिष्यै रोहिष्यै घृतम् घृतम् घृतपावानः घृतपावानः पिबत घृतपावान इति घृत पावानः पिबत पिबतान्तरिक्षस्य अन्तरिक्षस्य हविः हविरसि असि स्वाहा स्वाहा त्वा त्वान्तरिक्षाय अन्तरिक्षायदिशः दिशः प्रदिशः आदिशः प्रदिशैतिप्रादिशः आदिशो विदिशः आदिशैत्यादिशः विदिश उद्दिशः विदिशैतिवीदिशः उद्दिश स्वाहा उद्दिशैत्युदर्दिशः स्वाहा दिग्भ्यः दिग्भ्यो नमः दीर्घ इति दिकेभ्यः नमो दिग्भ्यः दीर्घ्य इति दिकेभ्यः समुद्रम् गच्छ गच्छस्वाहा स्वाहान्तरिक्षम् अन्तरिक्षम् गच्छ गच्छस्वाहा स्वाहा देवम् देवकं सवितारम् सवितारम् गच्छ गच्छस्वाहा स्वाहाहोरात्रे अहोरात्रे गच्छ अहोरात्रे साहात्रावणौ मित्रावरुणौ गच्छ मित्रावरुणाविति मित्रावर्णौ गच्छस्वाहा सोमम् सोमम् गच्छ गच्छस्वाहा स्वाहा यज्ञम् यज्ञम् गच्छ गच्छस्वाहा छन्दागुंसि छन्दागुंसि गच्छ गच्छस्वाहाद्यावापृथिवी द्यावापृथिवी गच्छ ्या वा पृथिवी इति द्या वा पृथिवी गच्छस्वाहा स्वाहा नभः नभो दिव्यम् दिव्यम् गच्छ गच्छस्वाहा स्वाहाग्निम् अग्निम् वैश्वानरम् वैश्वानरम् गच्छ गच्छस्वाहा स्वाहाभ्यः अभ्यस्वा अभ्यैत्यतेभ्यः ओषधीभ्यः ओषधीभ्यो मनः ओषधीभ्यैत्योषधीभ्यः मेहार्दि आर्दि यच्छ यच्छतनोम् तनोम् त्वचम् त्वचम् पुत्रम् पुत्रम् नप्तारम् नप्तारवशीय वशीयशुक शुकसि असितम् तमभि अभिशोच शोचयः योऽस्मान् अस्मान्वेष्टि वेष्टियम् यम् च वयम् वयम् विष्मः विष्मो धाम्नो धाम्नः धाम्नो धाम्नो राजन् धाम्नो धाम्न इति धाम्नः धाम्नः राजन्नितः इतो वरुण वरुणः नो मुञ्च मुञ्चयत् यदापः आपो अग्नियाः अग्निया वरुण वरुणेति यदि शपामहे शपा ततः ततो वरुण वरुणनः नोमुञ्च मुञ्चेति मुञ्च हविष्मतीरिमाः इमा आपः आपो हविष्मान् हविष्मान् देवः देवो अद्धरः अधरो हविष्मान् हविष्मागुम् आविभासति विभासति हविष्मान् अविष्माघुम् अस्तु अस्तु सूर्यः सूर्य इति सूर्यः अग्नेर्वः वोपन्नगृहस्य अपन्नगृहस्य सदसि अपन्नगृहस्येत्यपन्नागृहस्य सदसि साधयामि साधयामि सुम्नाय सुम्नाय सुम्निनेः सुम्निः सुम्ने सुम्ने मा धत्ता धत्तेन्द्राग्नियोः इन्द्राग्नियोर्भागधेयीः इन्द्राग्न्ययोरितीन्द्राग्नयोः भागधेयीस्थ भागधेयैरिति भागधेयीः स्थमित्रावर्णयोः मित्रावर्णयोर्भागधेयीः मित्रावर्णयोरिति मित्रावर्णयोः भागधेयीस्थ भागधेयीरिति भागा धेयीः स्थविश्वेषाम् विश्वेषाम् देवानाम् देवानाम् भागधेयीः भागधेयीस्थ भागधेयीरितिभागा धेयीः स्थयज्ञे यज्ञे जागृता जागृतेति जागृत हरे त्वा त्वामनसे त्वा दिवे द्वे त्वाः त्वा सूर्याय त्वा सूर्याय त्वाोर्ध्वम् ऊर्ध्वमिमम् इममध्वरम् अध्वरम् कृधि दिवि दिवि देवेषु देवेषु होत्रा होत्रायच्छ यच्छ सोम सोमराजन् राजन्ना एहि इष्यव ममह रोह माभेः भेर्मा मासम् भे, भेर मा, संवित्थाः वित्था मा त्वा त्वा त्वा त्वा त्वा त्वा त्वा एवंशिषम् त्वमुपावरोह उपावरोह प्रजाः उपावरोहेत्युप अवरोह प्रजास्त्वाम् प्रजालिप्रजाः त्वामुपावरोहन्तो उपावरोहन्तु शृणोतु उपावरोहन्तीत्युप अवरोहन्तो शृणोत्वग्निः अग्निः समिधा समिधा हवम् समिधेति सम् इधा हवम् मे मे कविताहवम् अवम् मे मयि मे देवीलापः आपो अपाम् अपाद्यः य ऊर्मिः कूर्मिर्हविष्यः इन्द्रियावान् इन्द्रियावान् इन्द्रियावानिति इन्द्रियान् मदिन्तमस्तम् तम् देवेभ्यः देवेभ्यो देवत्रा देवत्रा धत्ता देवत्रेति देवात्रा भर्तशुक्रम् शुक्रगम् शुक्रपेभ्यः शुक्रपेभ्यो येषाम् शुक्रपेभ्यैति शुक्रापेभ्यः येषाम् भागः भागस्थ स्थ स्वाहा स्वाहा कार्षिः कार्शयसि अस्य अपाम् रुध्रम् मृध्रकम् समुद्रस्य समुद्रस्य वः वोक्षित्यै अक्षित्या उद्र नय इति नये यमग्ने अग्ने पृत्सु कृत्सु मर्त्यम् वृत्स्विति पृत्सु मर्त्यमावह आवो वाजेषु वाजेषु जुना इति झुलाः शयन्ताः यन्ता शश्वतीः शश्वतीरिषः ईश इतीशः त्वमग्ने अग्ने रुद्रः रुद्रो असुरः असुरो महः महो दिवस्त्वम् त्वम् श्रर्धः शर्धो मारुतम् मारुतम् वृक्षः वृक्ष प्रक्ष ईशिषे ईशिष इतीशिषे त्वम् वातैः वातैररुणैः अरुणैर्यासि यासि शङ्गयः शङ्गयस्त्वम् शङ्गय इति शङ्गयः त्वम् पोषा पोषा विधतः विधतः विधत इति विधतः पासि नो नृत्मनाः त्मने आवह वो राजानम् राजानमध्वरस्य अध्वरस्य रुद्रम् रुद्रगुम् होतारम् होतारगुम् सत्येजमिति सत्यायजम् रोदस्योरिति रोदस्योः अग्निम् पुरा पुरातनयत्नोः तनयत्नोरचित्तात् अचित्ताद्धिरण्यरूपम् हिरण्यरूपमोऽसे हिरण्यरूपमिति हिरण्यरूपम् अवसे कृणध्वम् कृणध्वनिकृणध्वम् अग्निर्होता होतानि निषसादा ससादायुजीयान् यजीयानुपस्थे उपस्थे, उपस्थे मातुः उपस्थैत्युवास्थे मातुः सुरभौ सुरभावौ लोके लोक इति लोके युवाकविः कविः पुरुनिष्ठः पुरुनिष्ठऋतावा पुरुनिष्ठ इति पुरोनिष्ठः ऋता वा धर्ता कृता वेत्ता वा धर्ता कृष्टीनाम् कृष्टीनामुत उत मध्ये मध्य इद्धः युद्ध इतिद्धः साध्वीमकः देववीतिम् देववीतिम् नः देववीतिमिति देवावीतिम् नो अद्य अद्य यज्ञस्य यज्ञस्य जिह्वाम् जिह्वामविदाम अविदामगुह्याम् गुह्यामिति आयुरा आगावात् अगात्सुरभिः सुरभिर्वसानः वसानो भद्राम् भद्रामकः अगर्देवहूतिम् देवहूतिम्नः देवहूतिमिति देवा देवाहूतिम् नो अद्य अद्येत्यद्य अक्रन्ददग्निः अग्निस्तलयन् स्थलयन्निव पिब्योः द्योः क्षामा क्षामा विरुधः समञ्जन् समञ्जन्निति संहञ्जन् विहि ह्रीम् ईमिद्धः युद्धो अक्षत् अक्षदा आ रोदसी रोदसी भानुना रोदसी इति रोदसी भानुना भाति भात्यन्तः अन्तरित्यन्तः क्वे वसूनि इति त्वे वसूनिपुर्वणीक कुर्वणीकहोतः कुर्वणीकेति पुरो अनीक पोतर्दोषा दोषावस्तोः वस्तोरा वस्तो एरिवे ईरिले यज्ञियासः यज्ञियास इति यज्ञियासः क्षामेव इव विश्वा विश्वा भुवनानि भुवनानि यस्मिन् स्वलम् सलम् सौभगानि सौभगानि दुधिरे दधिरे पावके पावक इति पावके तुभ्यन्ताः पा अङ्गिरस्तम अङ्गिरस्तम विश्वाः अङ्गिरस्तमेत्यङ्गिरः तम विश्वाः सुक्षितयः सुक्षितयः पृथग सुक्षितय इति सौक्षितयः पृथगिति पृथग् अग्ने कामाय कामाय येमिरे येमिर इति येमिरे अश्याम तम् तम् कामम् काममग्ने अग्ने तव तभोती भोत्यश्याम अश्याम रयिम् रयिगुम् रयिवः रयिव सुवीरम् रयिव इति रयिवः सुवीरमिति सोवीरम् अश्यामवाजम् वाजमभि अभिवाजयन्तः वाजयन्तोऽश्याम अश्यामद्युम्नम् वाजयं द्युम्नमजर अजराजरम् अचरन्ते त इति ते श्रेष्ठविष्ठ जष्ठभारत भारताग्ने अग्ने द्युमन्तम् द्युमन्तमा द्युमन्तमिति द्युमन्तम् आभर भरेति भर वसो पुरस्पृहम् वसो इति वसो पुरस्पृहगम् रयिम् पुरःस्पृहमिति पुरोस्पृहम् सश्वितानः श्वितानस्तन्यतोः तन्यतो रोचनस्थाः लोचनस्था अजरेभिः लोचनस्था इति रोचनास्थाः अजरेभिर्नानदद्भिः नानदद्भिर्यविष्ठः नानदद्भिरिति नानदद्भिः यविष्ठ इति यविष्ठः यः पावकः पावकः पुरुतमः पुरतमः पुरोणि पुरतम इति पुरोणि पृसूणि पृथूण्यग्निः अग्निरनुयाति अनुयाति भर्वन् अनुयातीत्यनुयाति भर्वन्निति भर्वन् आयुष्ठे ते विश्वतः विश्वतो दधत् दधदयम् अयमग्निः अग्निर्वरेण्यः वरेण्य इति वरेण्यः पुनस्ते ते प्राणः प्राण आ प्राण इति प्रा नः आयति अयति परा परा यक्ष्मम् यक्ष्मगुम् सुवामि सुवामि आयुर्दा अग्ने आयुर्दा इत्यायोः उदाह अग्ने हविषः हविषो विषाणः विषाणो घृतप्रतीकः घृतप्रतीको घृतयोनिः घृतप्रतीक घृता प्रतीकः घृतयो घृतयो निरिति घृता योनिः एधीत्येधि घृतम् पीत्वा मधु मधु चारु चारु पिता ेव इम पुत्रम् पुत्रमभि अभिरक्षतात् रक्षतादिमम् रक्षता इममितीमम् तस्मै ते प्रतिहर्यते प्रतिहर्यते जातवेदः प्रतिहर्यत इति प्रतिहर्यते जातवेदो विचर्षणे जातवेद इति जातवेदः विचर्षण इति विचर्षणे अग्ने जनामि जनामि सुष्ठुतिम् दिवस्परि परिप्रथमम् प्रथमम् जज्ञे जज्ञे अग्निः अग्निरस्मत् अस्मद्वितीयम् द्वितीयम् परि परिजातवेदाः जातवेधा इति जातवेदाः तृतीयमप्सो अप्सु नृमणाः अप्स्वित्यपोसो नमणा अजस्रम् नमणा इतिः अजस्रमिन्धानः इन्धान एनम् एनञ्जलते जलते स्वाधीः स्वाधीः शुचिः स्वाधी पावक पावकवन्द्यः वृन्द्योऽग्ने अग्ने बृहद्वि विरोचसे रोचस इति रोचसे त्वम् घृतेभिः घृतेभिराहुतः आहुत इत्याहुतः दृषादो रुक्मः रुक्म उर्व्याभि उर्व्या यद्योर् अद्यौ दुर्मर्षम् दुर्मर्षमायुः दुर्मर्षमिति दुहो मनर्षम् आयुः श्रिये रुचानः रुचान इति रुचानः अग्निरमृतः अमृतो अभवत् अभवद्वयोभिः द्वयोभिर्यत् वयोभिरिवयःभिः यदेनम् एनन्द्योः द्यौरजनयत् अजनयत् सुरेताः सुरेता इति सुरेताः आयत् यदिशे इशे नृपतिम् ते नृपतिम् तेजः नृपतिरिति द्रौपदिम् तेज आनट् आनत् आनत शुचि शुचिरेतः रेथो रे निषिक्तम् निषिक्तम् द्यौः निषिक्तमिति निसिक्तम् द्यौरभीजे अभीक इत्यभीजे अग्निः श्रर्धम् श्रद्धमनवद्यम् अनवद्यम् स्वाधियमिति स्वाधियम् जनयत्सोदयत् सोदयच्च चेति च स मनसा मनसा त्वोतः उत उत शिक्षा शिक्षस्वपत्यस्य स्वपत्यस्य शिक्षोः स्वपत्यस्येति सो अपत्यस्य रायो नृतमस्य नृतमस्य प्रभूतौ नृतमस्येति नृतमस्य प्रभूतौ भूयाम प्रभूता विधि प्राभूतौ भूयाम ते ते सुष्ठुतयः सुष्ठुतयश्च सुष्ठुतय इति सोऽस्तुतयः च वस्वः वस्व इति वस्वः अग्ने सहन्तम् सहन्तवा आभर भरद्युम्नस्य युम्नस्य प्रासः प्रासः रयिम् प्रासहेति प्रासहा रयिमिति रयिम् विश्वायः निःशर्षणीः चर्षणीरभि अभ्यासा आसावाजेषु वाजेषु सासहत् सासहदिति तमग्ने अग्ने पृतनासहम् पृतनासहकम् वयिम् पृतनासहमिति पृतनासहम् वयिगुम् सहस्वः सहस्वा आभर भरेति भर त्वगुम् सत्यः सत्यो अद्भुतः अद्भुतो दाता दातावाजस्य वाजस्य गोमतः गोमत इति गोमतः वृक्षान्नाय वशान्नाय वृक्षान्नायेत्युक्षा अन्नाय वशान्नाय सोमपृष्ठाय वशान्नायेति वशा अन्नाय सोमपृष्ठाय वेधसे सोमपृष्ठायेति सोमापृष्ठाय वेधस इति वेधसे सोमैर्विधेम मा, विधेमाग्नये अग्नय इत्यग्नये पद्माहि इसूनो सोनो असि सोनो इति सोनो अस्यद्मसद्वा अग्मसद्वा चक्रे अग्मसद्वेत्यग्मा सद्वा चक्रे अग्निः अग्निर्जनुषा जनुषाज्वा अज्वानुनम् अन्नमित्यन्नम् स त्वाम् त्वन्नः नवोर्जसने ओर्जसनवूर्जम् ओर्जसन इत्योर्जासने धाराजा राजेव इवजेः जेरवृके वृके क्षेषि क्षेष्यन्तः अन्तरित्यन्तः अग्नायोगुंषि आयोगुंषि पवसे पवसा आसुव सुवोर्जम् ऊर्जमिषम् इषम् च नः न इतिः आरे बाधस्व बाधस्वदुच्छुनाम् दुच्छुनामिति दुच्छुनाम् अग्ने पवस्व तव स्वस्वपा आह स्वपा अस्मे स्वपा इति सो अपाः अस्मे वर्चः अस्मे इत्यस्मे वर्चः सुवीर्यम् सुवीर्यमिति सुवीर्यम् दधः पोषम् पोषकम् रयिम् रयिम् मयि मयितिमयि अग्ने पावक पावकरोचिषा रोचिषा मन्द्रया मन्द्रया देव देवजिह्वया जिह्वयेति जिह्वया देवान् देवान् देवान वक्षि वक्षि यक्षि यक्षि चेति च स नः नः पावक पावकदीदिवः दीदिवोग्ने दे, अग्ने देवान् देवाम् इह इहा, इहा आवह वहेदिवः उपयज्ञम् यज्ञुम् हविः हविश्चिनः अग्निःश्रुचिव्रततमः सुचिव्ग. शुचिव्रततमश्रुचिः शुचिव्रततप इति शुचिव्रततमः शुचिर्विप्रः विप्रःश्रुचिः शुचिः कविः कविरिति कविः शुचिरोचते रोचताहुतः आहुत इत्याहुतः अग्ने शुचयः शुचयस्तव तव शुक्राः शुक्राभ्राजुन्तः भ्राजुन्त ईरते ज्योदेवः सर्चयः अर्चय इत्यर्चयः ओ प्रथमकाण्डे तृतीयः प्रश्नः